कृष्णयजुर्वेदे क्रमपाठे पञ्चमकाण्डे प्रथमः प्रश्नः प्रारम्भः ओत्राणि जुहोति जहोति प्रसूद्धि प्रसूद्यि चतुर्गृहीतेन प्रसोज्जालिप्रासूद्यः चतुर्गृहीतेन जुहोति चतुर्गृहीतेन यदि चतुर्गृहीतेन ऋतुति चतुष्पादः चतुष्पादः पशवः चतुष्पाद इति चतुः पादः पशवः पशून् पशूनेव एवाव तवरुन्धे रुन्धे चतस्रः चतस्रो दिशः द्विषो दिक्षु दिक्षुेव एवम् प्रति प्रतिष्ठति तिष्ठति छन्दागुंसि दे। छन्दागुंसि देवेभ्यः नवः देवे वो भागानि अभागानि हव्यम् हव्यम् वक्ष्यामः इति तेभ्यः तेभ्य एतत् एतच्चतुर्गृहीतम् चतुर्गृहीतमधारयन् चतुर्गृहीतमिति पुरो गृहीतम् अधारयन् प्रोणवाक्यायै प्रोणवाक्यायै याध्यायि प्रोणवाक्याय इति प्रहानुवाक्यादि याद्यायै देवतायि देवतायै वुषट्काराय विषट्कारायि यत् विषत्काराय इति वषट्काराय यच्चतुर्गृहीतम् चतुर्गृहीतम् जुहोति चतुर्गृहीतमिति चतुर्गृहीतम् जुहोति छन्दागंसि छन्दागस्येव एव तत् तत्प्रीणाति तस्य प्रीतानि प्रीतानि देवेभ्यः देवेभ्यो हव्यम् हव्यम् भाहंती, वहन्ति वहन्ति यम् यम् रामयेत रामयेत पापीयान् पापीयान् स्यात् स्यादितिन्येकैकम् एकैकम् तस्य एकम् तस्य जुहुयाद् जुहुयादाहुदीभिः राहुदैभिरेव राहुदेभिरित्याहुदेवः एवम् एवमव अपगृह्णाति गृह्णादि पापीयान् पापीयान् भवति भवतियम् इयम् कामयेत कामयेत वसीयान् वसीयान् स्यात् स्यादिति स्याद इति सर्वाणि सर्वाणि तस्य तस्यानुदृत्य अनुदृत्यजुहुयात् अनुद्रुद्धेद्यनोदृत्य युहुयादाहुद्या आहुत्यैव आहुधयेद्याहुदयः एवैनम् एनमभि अभिक्रमयति क्रमयति वसीयान् आन, वसीयान् भवति भवत्यथो अथो यज्ञस्य अथो नित्यथो यज्ञस्यैव एवैषा एषा विक्रान्तिः अभिक्रान्तिवेति अभिक्रान्तिवित्यभिक्रान्तिः एति वै वा एषः एष यज्ञमुखात् यज्ञमुखादृध्याः यज्ञमुखादिवियज्ञामुखाद् अध्यायः योऽग्नेः अग्नेर्देवतायाः देवता एति एष्टौ अष्टावेतानि एतानि सावित्राणि सावित्राणि भवन्ति त्वम् द्यष्टाक्षरा अष्टाक्षरा गायत्री गा अष्टाक्षरे दष्टा अक्षराः एव यज्ञमुखात् यज्ञमुखादृभ्या आह यज्ञमुखादिति यज्ञामुखात् रन्ध्या अग्नेः अग्नेर्देवतायै देवतायैना न एत्यष्टौ अष्टौ सा वित्राणि सा वित्राणि भवन्ति भवन्त्याहुतिः आहुतिर्नवमी आहुतिरित्याहुतिः नवमी त्रिवृतमेव त्रिवृतमिति त्रिवृतम् एव यज्ञमुखे यज्ञमुखे वि यज्ञमुख इति यज्ञमुखे नियातयति यातयति यदि यदि कामयेत तर्पयेयमिति चमन्तमात् कुर्याच्छन्दासि छन्दाकस्येव एव यज्ञैषसेन यज्ञैषसेन यज्ञैषसेनेति यज्ञायशसेन तर्पयेति यदि यदि कामयेत कामयेत यजमानम् यजमानम् यज्ञैषसेन यज्ञैषसेन अर्पयेयम् यज्ञैषसेनेति यज्ञैषसेन अर्पयेयमिति इति यजुः यजुरन्तमम् अन्तमम् यजमानम् यजमानमेव एव यज्ञैषसेन यज्ञैषसेन अर्पयति यज्ञैषसेनेति यज्ञायशसेन अर्पयत्युचा युचा स्तोमम् स्तोमपुंसम् समर्धय अर्धयेति इत्याह आह समर्थ्यै समृद्ध्यै चतुर्भे समृद्भ्या इति सामृद्ध्यै चतुर्भिरद्भिम् चतुर्भिरिति चतुर्भिः अभ्यमा आदधे दद्धे चत्वारि चत्वारि षण्डांसे छन्दाकुंसि छन्दोभिः छन्दोभिरेव छन्दोभिर्ति छन्दहाभिः एव देवस्य देवस्य त्वा प्रासविदुः सविदुः प्रसवे प्रसवैति प्रसवैति दि। प्रासवे इत्याह आह प्रसूद्यै त्यादि प्रसवोद्या अग्निः प्रसवोद्या इति देवेभ्यो निलायत निलायत सः स वेणुम् वेणुम् प्राविशत् अविशत्सः स एताम् एतामूतिम् ऊतिमनु अनुसम् यत्रेणो आह रेणो अस् सुशिरम् सुशिरगुम् सुशिरा सुशिराभिः अभ्युर्भवति अपति सयोनित्वाय सयोनित्वाय सः सयोनित्वायति यत्र यत्र यत्र यत्रेति यत्र यत्र अवसत्तत् तत्कृष्णम् दृष्णमभवत् अभवत्कल्माषी कल्माषी भवति अपतिरूपसमृद्ध्या रूपसमृद्ध्या उभयतः रूपसमृद्ध्या इति रूपासमृद्धिः उभयतः अक्ष्णोर्भवति उभयतः अक्ष्णोरित्युभयतः अक्ष्णोः भवतीतः इतश्च चामृदः अमुतश्च चार्कस्य अर्कस्यावरुद्धि अवरुद्धि व्याममात्री अवरुद्ध्या इत्यवरुद्ध्यै व्याममात्री भवति व्याममात्रीति व्यामात्री भवत्येतावत् एतावद्वै वै पुरुषे पुरुषे वीर्यम् वीर्यम् वीर्यसंहिता वीर्यसंहितापरिमिता वीर्यसंहितेति वीर्यः संहिताः अपरिमिता भवति अपरिमितेत्यपरिमिताः भवत्यपरिमितस्य अपरिमितस्यावरुद्धिः अपरिमितस्येत्युपरिमितस्य अवरुद्धि यः अवरुद्ध्या इत्यवरुद्धिः यो वनस्पतीनाम् वनस्पतीनाम् फलग्रहिः फलग्रहिः सह फलग्रहिरिति फलाग्रहिः स येषाम् येषाम् वीर्यावान् वीर्यावान्फलग्रहिः फलग्रहिरिति फलाग्रहिः वेणुर्वैणवी वैणवी भवति भवति वीर्यस्य वीर्यस्य अवरुद्धि अवरुद्धा इत्यवरुद्धि व्यर्थम् वै व्यर्थमिति वीरुद्धम् वा एतत् एतद्यज्ञस्य यज्ञस्य यत् यदयजुष्केण अयजुष्केण क्रियते अयजुष्केणेत्ययजुः केन क्रियत इमाम् इमामगृह्णन् अगृह्णन् वशनाम् वशनामृतस्य तस्येति इत्यश्वाभिधानीः अश्वाभिधानीमा अश्वाभिधानीमित्यश्वाभिधानीम् आदत्ते दत्ते यजुष्कृत्यै यजुष्कृत्यै यज्ञस्य यजुष्कृत्याजोकृत्यैः यज्ञस्य समृद्ध्यै समृद्ध्यै प्रतोऽर्तम् समृद्ध्यादिति समृद्ध्यैः प्रतोऽर्तम् वाजिन् प्रतोऽर्दमिति प्रातोर्तम् वाजिन्ना आद्रव द्रवेति इत्यश्वम् अश्वमभि अभिदधाति तथापि रूपम् रूपमेव एवास्य अस्यैतत् एतन्महिमानम् महिमानम् व्याचष्टे व्याचष्टे युञ्जाथाम् व्याचष्ट इति आचष्टे युञ्जाथाम् रासभम् रासभयुगम् युगमिति इति गर्दभम् गर्दभमसति असत्येव एव गर्दभम् गर्दभम् प्रति प्रतिष्ठापयति स्थापयति तस्मात् तस्मादश्वात् अश्वाद्गर्दभः गर्दभोऽ सत्तरः असत्तरो योगे योगे असत्तर इत्यसत् योगे योगे तवस्तरम् योगे योग इति योगे योगे तवस्तरमिति तवस्तरमिति तवः तम् इत्याह आह योगे यो योगे योगे योग एव योगे योग इति योगे एवयुम् एनम् युङ्के युङ्के वाजे वाजे वाजे वाजे हवामहे वाजे वाजे वाजे हवामः इति इत्याह आहान्नम् अन्नम् वै वै वाजः वाजोन्नम् अन्नमेव एवाव अवरुन्धे रुन्धे सखायः सखाय इन्द्रम् इन्द्रमोदये ऊदय इति इत्याह आहेन्द्रियम् इन्द्रियमेव एवाव अवरुन्धे रुन्धेग्निः अग्निर्देवेभ्यः देवेभ्यो लीलायत लीलायत तम् तम् प्रजापतिः प्रजापतिर्णो प्रजापतिर्दित् प्रजापतिः अन्वविन्दत् अविन्दत्प्राजावृत्यः प्राजावत्योऽश्वः प्राजावैति प्राजावृत्यः अश्वोऽश्वेन अश्वेन सम् सम्भरति भरत्यनुविद्यै अनुविद्यै पापवस्य सम् अनुविद्या इत्यनो विद्यै पापवस्य सं वै पापवस्य समिति पापावस्यसम् वा एतत् एतत्क्रियते क्रियते यत् यच्छ्रेयसा श्रेयसा च पापीयसा पापीयसा च समानम् समानम् कर्म कर्म कुर्वन्ति कुर्वन्ति पापीयान् पापीयानि हि अश्वात् अश्वाद्गर्दभः गर्दभोऽश्वम् अश्वम् पूर्वम् पूर्वम् नयन्ते सस्य पापवस्य सस्य व्यावृत्त्यै पापवस्य पापवस्य तस्य व्यावृत्त्यै तस्माद् व्यावृत्त्या इ आवृत्त्यै तस्माच्छ्रेयागुंसम् श्रेयागुंसम् पापीयान् पावीयान् पश्चाद् पश्चादनु अन्वेति येति बहुर्वै वै भवतः भवतो भवति भवतिव इव खलु खलु एषयः योऽग्निम् अग्निम् जीवन्ते वज्री वज्रेश्वः अश्वः प्रदोर्वन् प्रदोर्वन्ना प्रदोर्वन्यति प्रादोर्वन् एहिक्रामन् अपक्रामन्शस्तीः अपक्रामन्नित्यवक्रामन् अशस्ती इत्याह आहवज्रेण वज्रेण एव पाह्मानम् पाह्मानम् भ्रातृव्यम् भ्रातृव्यम् वा अपक्रामति क्रामति रुद्रस्य ग्राणपत्यादिति ग्राणपत्यादिति ग्राणापत्यात् इत्याह आह रौद्राः रौद्रा वै वै पशवः पशवो रुद्रात् दे, रुद्रादेव एव पशून् पशून्निर्याच निर्याचात्मने निर्याच्येति निहीया आत्या, आत्मने कर्म कर्म कुरुते कृते पूष्णा पूष्णा सयुजा सह सयुजेति सायुजाः सहेति इत्याह आह पूषा पूषा वै वा अध्वनाम् सन्नेता सन्नेता समष्ट्यै सन्नेजेति सम् नेता समष्ट्यै पुरीषायतनः समष्ट्यायति सामष्ट्यै पुरीषायतनो आयतनः वा एषः एष यत् अग्निरङ्गिरसः अङ्गिरसो वा एतम् एतमग्रे अग्रे देवतानाम् देवतानामसम् समभरन् अभरम् पृथिव्याः पृथिव्याः सधस्थात् सधस्थादग्निम् सधस्थादिति सधास्तात् अग्निम् पुरेष्यम् पुरेष्यमङ्गिरस्वद् अङ्गिरस्वदच्छ अच्छेहि इहीति इत्याह आहसायतनम् सायतनमेव सायतनमिति सा आयतनम् देवैनम् एनम् देवताभिः देवताभिः सम् सम्भरति भरत्यग्निम् अग्निम् पुरेष्यम् पुरेष्यमङ्गिरस्वद् अङ्गिरस्वदच्च अक्षेमः इव इति निह आहयेन येन सङ्गच्छदे सङ्गच्छदेवाजम् सङ्गच्छद इति संगच्छदे एवास्य तस्य वृन्दे वृन्दे प्रजापते प्रजापते प्रतिप्रोच्य प्रजापते इति प्रजापते प्रतिप्रोच्याग्निः प्रतिप्रोच्यति प्रतिप्रोच्य अग्निः संहृत्यः संहृत्य इति संहृत्य इति संहृत्यः इत्याहो आहुर्यम् इयम् वै वै प्रजापतिः प्रजापतिस्तस्या आह तस्या एतत् एतत् श्रोत्रम् श्रोत्रम् यत् यद्वल्मीकः वल्मीकोऽग्निम् अग्निम् पुरेष्यम् पुरेष्यमङ्गिरस्वत् अङ्गिरस्वद्भरिष्यामः इति वल्मीकपपाम् वल्मीकपपामुप वल्मीकपपामिति वल्मीकावपाम् उपतिष्ठते तिष्ठते साक्षात् साक्षादेव साक्षादिति साक्षात् एव प्रजापतये प्रजापदये प्रतिप्रोच्य प्रजापते प्रजापते प्रदेप्रोच्याग्निम् प्रतिप्रोचेति प्रतिप्रोच्य प्रदे अग्निहुंसम् सम्भरति भरत्यग्निम् अग्निम् पुरेष्यम् अङ्गिरस्वद्भरामः भराम इति इत्याह आहयेन येन सङ्गच्छते सङ्गच्छते वाजम् सङ्गच्छत वाजमेव एवास्य अस्य वृन्ते वृन्तेनो अन्वग्निः अग्निरुषसाम् उषसामग्रम् अग्रमक्ष्यत् अक्ष्यदिरि इत्याह आहानुख्याति अनुख्यात्या आगत्य अनुख्यात्या इत्यमुख्याति आगत्य वाजी आहति आगत्य वाज्यध्वनः अध्वन आक्रम्य आक्रम्य वाजिन् आक्रम्येत्या आक्रम्य वाजिन् पृथिवीम् पृथिवीमिति इद्याह आहेच्छति एवैनम् एनम् पूर्वया पूर्वया विन्दति विन्दत्युत्तरया उत्तरया द्वाभ्याम् आक्रमयति क्रमयति प्रतिष्ठित्यै प्रतिष्ठित्या अनुरूपाभ्याम् प्रतिष्ठित्या इति प्रतिष्ठित्यै अनुरूपाभ्याम् तस्मात् अनुरूपाभ्यामित्यनोरूपाभ्याम् तस्मादनुरूपाः अनुरूपा पशवः अनुरूपा इत्यनोरूपाः पशवः प्रजायन्ते जायन्ते द्यौः द्यौस्ते ते पृष्ठम् पृष्ठम् पृथिवी पृथिवी सधस्थम् रथस्थमिति रस्थमिति सधास्थम् इत्याह आहैभ्यः एभ्यो वै वा एतम् एतम् लोकेभ्यः लोकेभ्यः प्रजापतिः प्रजापतिः सम् प्रजापतिरिति प्रजापतिः समैरयत् हैरेद्रूपम् रूपमेव एवास्य अस्यैतत् एतम् महिमानम् महिमानं व्याचष्टे व्याचष्टे वज्री व्याचष्टरिति वि आचष्टे वज्री वै वा एषः एष यत् यदश्वः अश्वो दद्भिः अन्यतो दध्यैत्यन्यतो दतेभ्यः भूयान् लोमभिः लोमभिरुभयादद्भ्यः उभयाभिरिलोमाभिः उभयादद्भ्योऽयम् उभयादध्यैत्युभयादतेभ्यः इदम् दृश्यात् दृश्यात्तम् तमधस्पदम् अधस्पदम् ध्यायेत् अधस्पदमित्यधः पदम् ध्यायेत् वज्रेण वज्रेणैव एवैनम् येन श्रुणते उत्क्राम क्रामोद् उदक्रमेद् अक्रमेदिति द्वाभ्याम् द्वाभ्यामुद् उत्क्रमेदि क्रमेदि प्रतिष्ठित्यै प्रतिष्ठित्या अनुरूपाभ्याम् प्रतिष्ठित्या प्रतिष्ठित्यै अनुरूपाभ्याम् तस्माद् अनुरूपाभ्यामित्यनोरूपाभ्याम् तस्मादनुरूपाः अनुरूपाः पशवः अनुरूपा प्रजायन्ते जायन्तेऽपः अप उप उपसृजरि सृजरेऽत्र यत्र वै वा आपः आप उपगच्छन्ति उपगच्छन्ति तत् उपगच्छन्तेत्युपागच्छन्ति तदोषधयः ओषधयः प्रति प्रतिष्ठन्ते तिष्ठन्त्योषधीः ओषधीप्रतिष्ठन्तीः प्रतितिष्ठन्ते पशवः प्रतितिष्ठन्ते यदि प्रतिष्ठन्तीः पशवो नो अनुप्रति प्रतिष्ठन्ते तिष्ठन्ति पशून् पशून् यज्ञः यज्ञो यज्ञम् यज्ञ यजमानः यजमानो यजमानम् यजमानम् प्रजाः प्रजास्तस्मात् प्रजा यदि प्राजाः तस्मादपः अप उप उपसृजति सृजति प्रतिष्ठित्यै प्रतिष्ठित्यै यत् प्रतिष्ठित्या इति प्रतिष्ठित्यै यदध्वर्युः अध्वर्युरलग्नौ अनग्नावाहुदिम् आहुतिञ्जुहृयात् आहुदित्याहुदिम् विहृयादन्धः अन्धो अध्वर्युः अध्वर्युः स्यात् स्याद्रक्षापुंसि रक्षापंसि यज्ञम् यज्ञकम्हन्युः अन्यर्हिरण्यम् हिरण्यमुपास्य उपास्य जुहोति उपास्येत्युपास्य जुहोत्यग्निवति अग्निवत्येव अग्निवतीत्यग्निवति एव जुहोति जुहोति नान्धः अन्धो अध्वर्युः अध्वर्युर्भवति भवति न यज्ञम् यज्ञम् रक्षागुंसि रक्षागुंसिघ्नन्ति जिघर्मि जिघर्म्यग्निम् अग्निम् मनसा मनसा घृतेन घृतेनेति इत्याह आह मनसा हि पुरुषः पुरुषो यज्ञम् यज्ञमभिगच्छति अभिगच्छति प्रतिक्षन्तम् अभिगच्छतीत्यभिगच्छति प्रतीक्षन्तम् प्रतिक्षन्तमिति प्रतीक्षन्तम् विश्वाः विश्वेति इत्याह आह सर्वम् सर्वगुं हि एष एष प्रत्यङ् प्रत्यङ्क्षेति क्षेति पृथुम् पृथम् तिरश्चा तिरश्चा वयसा वयसा बृहन्तम् बृहन्तमिति इत्याह आहाल्पः अल्पो हि एषः एष जातः जातो महान् महान् भवति भवति व्यतिष्ठम् युतिष्ठमन्नम् अन्नकम् रभसम् रभसम् विधानम् विदाननी इत्याह आहान्नम् अन्नमेव एवास्मै अस्मै स्वदयति स्वदयति सर्वम् सर्वमस्मै अस्मै स्वतते स्वदतेजः यदेवम् एवम् वेद वेदा आत्त्वाजिघर्मि जिघर्मि वचसा वचसा घृेन घृदेनेति इत्याह आहतस्मात् तस्माद्यत् यत्पुरुषः पुरुषो मनसा मनसाभिगच्छति अभिगच्छति तत् अभिगच्छतीत्यभिगच्छति तद्वाच वाचा वदति अदत्यरक्षसा अरक्षसेति इत्याह आह रक्षसाम् रक्षसामपहत्यै अपहत्यै मर्यश्रीः अपहत्या इत्यपाहत्यै मर्यश्रीस्पृहेद्वर्णः मर्यश्रीरिति मर्याश्रीः स्पृहेद्वर्णो अग्निः स्पृहेद्वर्ण इति स्पृहेद्वर्णः अग्निर्हि इत्याह आहापचितिम् अपचितिमेव अपचितिमित्यपाचितिम् देवास्मिन् अस्मिन् दधाति तथात्यपचितिमान् अपचितिमान् भवति अपचितिमान् इत्यपचितिमान् भवति यः यदेवम् एवं वेद मनसा तु त्वयि वै ताम् तामाप्तुम् आप्तुमर्हति अर्हति या अनग्हुदिम् आहुदिम् जुहोदि आहुदि वनस्वतीभ्याम् जुहोदि जुहोत्याहुत्योः आहुत्योरात्यै आहुत्योरित्याहुत्योः आत्यै द्वाभ्याम् द्वाभ्याम् प्रदिक्षित्यै प्रदिशत्यै यज्ञमुखे यज्ञमुखे प्रदिशित्या इति प्रदेश्यती यज्ञमुखे यज्ञमुखे वै यज्ञमुखे यज्ञमुख इति यज्ञमुखे यज्ञमुखे वै क्रियमाणे क्रियमाणे यज्ञम् यज्ञम् रक्षाकंसि रक्षाकंसि विधाकम्सन्ति विधाकम्सन्त्येतर्हि एतर्हि येतर खलु खलु वै वा एतत् एतद्यज्ञमुखम् येतर येतर यज्ञमुखम् यज्ञमुखमिति यज्ञामुखम् यर्क्येन आहुतिरश्नुते आहुतिरिद्राहुतिः अश्नुते परि परिलिखति लिखति रक्षसा रक्षसामपहत्यै अपहत्यै तिसृभिः अपहत्या इत्यपाहत्यै तिसृभिः परि तिसृभिरि तिसृभिः परिलिखति लिखति वा अग्निः यावा अग्निर्यावान् यावानेव है एवाग्निः अग्निस्तस्मात् तस्माद्रक्षागंसि परिक्षागस्य वा अपहन्ति हन्विगायत्र्या गायत्र्यापरि परिलिखति लिखति तेजः तेजो वै वै गायत्री तेजसा तेजसैव एवैनम् एनम् परि परिगृह्णाति गृह्णाति त्रिष्टुभाः तृष्टुभा परि इन्द्रियम् वै वै ऋष कृष्णरिन्द्रियेण त्रिष्टुक, इन्द्रियेणैव एवैनम् एनम् परि परिगृह्णादि गृह्णात्यनष्टुभाः अनष्टुभा परि अनष्टुभेद्यनोस्तुभाः परिलिखरि लिखर्त्यनष्टु अनष्टप्सर्वाणि अनष्टमित्यनोऽसुभ सर्वाणि छन्दाकंसि छन्दागंसि परिभोः परिभोः पर्याप्त्यै परिभोरिति बलिभोः पर्याप् मध्यतः पर्याप्ता इति बलि आप्यैः मध्यतोऽनुष्टुभाः अनष्टुभावाग् अनष्टभेद्यनोस्तुभाः वाग्भ वा अनुष्टुप् अनुष्टुप्तस्माद् अनुष्टुप् इत्यनोऽस्तु तस्मान्मध्यतः मध्यतो वाचा वाचा वदामः वदामो गायत्र्या गायत्र्या प्रथमयाः समयापरि <प्रेथ> परिलिखरि लिखत्यथ अथानुष्टुभाः अनुष्टुभाथ अनुष्टुभेत्यनोस्तुभाः अथ तिष्टुभाः तिष्टुभाधेदः तेजो वै वै गायत्री गायत्री यज्ञः यज्ञोऽनुष्टुक् अनुष्टुकेन्द्रियम् अनुष्टुगीत्यनोस्तु इन्द्रियम् दृष्टक् तिष्टुप्तेजसा तेजसा चैव देवेन्द्रियेण इन्द्रियेण च सोभयतः उभयतो यज्ञम् यज्ञम् परि परिगृह्णाति गृह्णातीति गृह्णाति देवस्य त्वा सविदुः सविदः प्रसवे प्रसवैति प्रसवैति प्रासवे इति खनरि खनरि प्रसूवृत्ति प्रसौवृत्याथो एतेन जनयति जनयति ज्योतिष्पन्दन्त्वा त्वा त्वाग्नेः अग्ने सुप्रदीकम् इत्याह आहज्योतिः ज्योतिरेव एवैरेन एतेन जनयति जनयति सोऽग्निः अग्निर्जातः जातः प्रजाः प्रजाश्रिता प्रजादिप्राजाः सुजार्पयत् प्रजा अर्पयर्थम् तम् देवाः देवार्धर्चेन अर्धर्चेनाशमयन् अर्धर्चेनेत्यर्धर्चेन अशमयन् शिवम् शिवम् प्रजाभ्यः प्रजाभ्योऽकम् सन्तम् प्रजाभ्यैरिप्राजाभ्यः अहिवम् सन्तमिति इत्याह आह प्रजाभ्यः प्रजाभ्य एव प्रजाभ्यैरिप्राजाभ्यः एवम् केनकम् शपयति शमयति, शमयति द्वाभ्याम् वाभ्याम् खलति खलति अपाम् प्रतिष्ठत्या इति प्रतिष्ठित्यै अपाम् पृष्ठम् पृष्ठमसि इति पुष्करवर्णम् पुष्करपर्णमा पुष्करवर्णमिति पुष्करावर्णम् आहरति हरत्यपाम् वा एतत् एतत् पृष्ठम् पृष्ठम् यत् यत् पुष्करवर्णम् पुष्करपर्णम् रूपेण एवैनत् एनदा आहरति भरति पुष्करवर्णेन पुष्करवर्णेन सम् पुष्करवर्णेन पुष्करावर्णेन सम्भरति भरति योनिः योनिर्वैवाग्नेः पुष्करवर्णम् पुष्करवर्णकम् स योनिम् पुष्करवर्णमिति पुष्करावर्णम् स योनिमेव योनिम् एवाग्निम् अग्निकम्सम् सम्भरति भरति कृष्णार्जिनेन कृष्णार्जुनेन सम् कृष्णार्जुनेनेति कृष्णार्जुनेन सम्भरति भरति यज्ञः यज्ञो वै वै कृष्णार्जिनम् कृष्णार्जिनम् यज्ञेन कृष्णार्जिनमिति कृष्णार्जुनम् यज्ञेनैव एव यज्ञम् यज्ञकम् सम् सम्भरति भरति यत् यद्ग्राम्याणाम् ग्राम्याणाम् पशूला पशूलान् चर्मणा सम्भरेत् सम्भरेद्ग्राम्यान् सम्भरेति सम्भरेत् ग्राम्यान् वशून् पशोञ्छिता शितार्पयेत् अर्पयेत् कृष्णार्जुनेन कृष्णार्जुनेन सम् कृष्णार्जुनेनेति कृष्णार्जुनेन सम्भरति आरण्यानेव एव पशून् पशोञ्छिता पशुन शितार्पयति अर्पयेत् तस्मात् तस्मात् समावत् समावत्पशूनाम् पशूनाम् प्रजायमानानाम् प्रजायमानानामारण्याः प्रजायमानानाविजित्प्राजायमानानाम् आरण्याः पशवः पशवः कनीयागुंसः कनीयागुन्दः शुचाः शुचाः कृताः मृतालो मतः लो मतः सन् सम्भरति मेध्यम् कृष्णाजिनम् कृष्णाजिनम् च कृष्णाजिनमिति कृष्णार्जिनम् च पुष्करवर्णम् पुष्करपर्णम् च पुष्करवर्णमिति पुष्करावर्णम् च सम् सग्रसृणादि वै वै कृष्णाजिनम् कृष्णाजिनमसौ कृष्णाजिनमिति असौ पुष्करवर्णम् पुष्करवर्णमाभ्याम् पुष्करवर्णमिति पुष्करावर्णम् भ्यामेव एवैनम् एनमुभयतः उभयतः परि परिगृह्णादि गृह्णाद्यग्निः अग्निर्देवेभ्यः देवेभ्यो निलायत निलायतम् तमथर्वा अथर्वानु अन्वपश्यत् अपश्यदथर्वा अथर्वा त्वा त्वाप्रथमः अमन्थदग्नेः अग्नैः इत्याह आहयः य एवैनम् एनमन्वपश्यत् अन्वपश्यतेन अन्वपश्यदित्यनु अपश्यत् तेनैव एवैनम् येन कंसम् सम्भरति भरति अग्ने पुष्करात् पुष्करादधि अधीति इत्याह आह पुष्करवर्णे पुष्करवर्णे हि पुष्करवर्णैः ेन एनमुपश्रितम् उपश्रितमविन्दत् उपश्रितमित्युपाश्रितम् अविन्दत्तम् तमो कृत्वा वा दध्यङ् ऋषिः ऋषिरि इत्याह आहदभ्यङ् दभ्यङ्गवै आथर्वणः आथर्वणस्तेजस्वी तेजस्यासीत् आसीत् तेजः तेज एव एवास्मिन् अस्मिन् दधाति दधा तमो कृत्वा कावाच्यः पाथ्यो वृषाः दृशेति इत्याह आहपूर्वम् पूर्वमेव एवोदितम् उदितमुत्तरेण उत्तरेणाभि उत्तरेणेत्युदोत्तरेण अभिगृणादिकृणादितसृभिः रतसृभिः सम्सृभिरितिः सम्भरति भरति चत्वारि चत्वारि छन्दागुंसि छन्दागुंसि छन्दोभिः छन्दोभिरेव छन्दोभिरि छन्दःभिः एव गायत्रीभिः गायत्रिभिर्ब्राह्मणस्य ब्राह्मणस्य गायत्रः राजत्रो हि इब्राह्मणः ब्राह्मणस्तिष्टुग्भिः त्रिष्टुग्भिः राजन्यस्य त्रिष्टुग्भिरिति त्रिष्टगिभिः राजन्यस्य त्रैष्टुभः त्रैष्टुभो हि इराजन्यः राजन्योऽयम् लङ्कामयेत रामयेत वसीयान् आन, वसी वशीयान् स्यात् स्यादिति इत्युभयैभिः उभयैभिस्तस्य तस्य सम् सं, सम्भरेत् भवेत्तेजः तेजश्च ते चैव एवास्मै अस्मान्द्रियम् इन्द्रियम् च समीची समीची इति समीची दधात्यष्टाभिः अष्टाभिः सम् सम्भरति भरत्यष्टाक्षरा अष्टाक्षरा गायत्री अष्टाक्षरेऽत्यष्टा अक्षरा गायत्री गायत्रः रायत्रोऽग्निः अग्निर्यावान् यावानेव एवाग्निः अग्निस्तम् सम्भरति होदरिति इत्याह आह देवता आह देवता एव एवास्मै अस्मै अस्मेण सम् सकंसाधयति साधयतिनि निहोता होदेति हो इति मनुष्यान् मनुष्यान् सम् सीदस्व ईदस्वेति सी इति रयागुंसि रयागुंसि जनिष्व जनिष्वा हि विजयन्यः जैन्यो अग्रे अग्रे अन्धानाम् अन्धामिति पीताः आह देवमनुष्यान् देवमनुष्यानेव देवमनुष्यान् इति देवामनुष्यान् एवास्मै अस्मै सकंसन्नान् सकंसन्नान् प्रंसन्नानिति संसन्नान् प्रजनयति जनयतीति जनयति क्रूरमिव इवै वा अस्याः अस्या एतत् एतत्करोति करोति यत् यत्खनदि खनद्यपः अभौव उपसृजति सृजत्यापः आभो वै वै शान्ताः शान्ताः शान्ताभिः अस्यैशुचम् शुचकम् शमयति शमयति सम् सं, सन्देहे वायुः वायुम्मा दर्श्वाह मा दर्श्वा इत्याह आह प्राणः प्राणो वै प्राणः वै वायुः वायुः प्राणेनैव प्राणेन एवास्यै अस्यै प्राणम् प्राणगुंसम् प्राणविरि प्राणम् सन्नधाति दधाति सम् सन्धेः हे वायुः वायुरिति इत्याह आहतस्मात् तस्माद्वायुप्रच्युता वायुप्रच्युता दिवः वायुप्रच्युतेति वायुप्रच्युताः इरो वृष्टिः वृष्टिरीर्ते ईर्ते तस्मै तस्मै च स देवि एविवषड् वषडस्तु अस्तु तुभ्यम् तुभ्यमी इत्याह आह षड्वै वा ऋतवः रतव ऋतुषु ऋतुष्वेव एव वृष्टिम् वृष्टिम् दधाति तस्मात् तस्मात्सर्वान् सर्वा ऋतोन् ऋतोन् वर्षति वर्षति यत् यद्वषट्कुर्याद् षट्कुर्याद्वादयामा यातयामास्य यातयामेति यातायामाः अस्य वषट्कारः ऋषट्कारः स्यात् षट्कार इति वषटकारः स्याद् यन्न न वषट्कुर्याद् वषट्कुर्याद्रक्षापुंसि षट्कुर्यादिति वषट् कुर्यात् रक्षापुंसि अन्यर्वड् वडिति इत्याह आह परोक्षम् परोक्षमेव परोक्षमिति परः अक्षम् एव वषट् वषट् करोति दि करोति न नास्य अस्य यातयामा यातयामा वषट्कारः यातयामेति यातायामा वषट्कारो भवति वषट्कार इति वषट्कारः भवति न यज्ञम् रक्षागुंसि रक्षागुंसि नन्दि नन्दि सुजातः सुजातो ज्योतिषा सुजात इति सः सहेति इत्यनुष्टुभा अनुष्टुभोप अनुष्टुभेत्यनौस्तुभा उपनह्यति नह्यत्यनुष्टुप् अनुष्टुप्सर्वाणि सर्वाणि छन्दागुंसि छन्दागुंसि छन्दागुंसि छन्दागुंसि खलु खलु वै वा अग्नेः अग्नेः प्रिया प्रिया तनोः तनोः प्रियया प्रियैव एवैनम् एनम् तनुभा तनुभापरि परिदधाति वासो भवति भवति यः य एवम् एवम् वेद वेदवारुणः वारुणो वै वा अग्निः अग्निरुपनद्धः उपनद्ध उद् उपनद्ध उदौ उतिष्ठ तिष्ठस्वध्वर स्वध्वरोऽर्ध्वः स्वध्वर इति सु ऊर्ध्वौ ऊषुणः सुनः न ऊतये इति सावित्रीभ्याम् सावित्रीभ्यामुत् वृत्तिष्ठति तिष्ठति सवितृप्रसूदः सवितर्प्रसूद एव सवितर्प्रसूद एवास्य अस्योर्ध्वाम् ऊर्ध्वाम् वर्णमेनिम् वरुणमेनिमुत् वरुणमेनिमिति वर्णमेनिम् उत्सृजति द्वाभ्याम् द्वाभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्यै सह प्रतिष्ठित्या इति प्रतिष्ठित्यै स जातः जातो गर्भः गर्भो असि असि रोदस्योः रोदस्योरिति इत्याह आहेमे इमे वै इमे इमे वै रोदसी रोदसी तयोः रोदसी तयोरेषः एष गर्भः नर्भो यत् यदग्निः अग्निस्तस्मात् तस्मादेवम् एवमाह आहाग्ने आहा अग्ने चारुः चारुर्विभृतः विभृत ओषधीषु विभृत ओषधी श्री इत्याह आह यदा यदा हि येन एतम् विभरन्ति विभरन्त्यथ विभरन्तीति विभरन्ति अथ चारुतरः चारुतरो भवति चारुतर इति चारुतरः भवति अप्रमातृभ्यः मातृभ्यो अधि मातृभ्य इति मातृभ्यः कायी इत्याह आ औषधयः ओषधयो वै वा अस्य अस्य मातरः मातरस्ताभ्यः ताभ्य एवैनम् एनम् प्रचावयति स्थिरः स्थिरो भव वीड्वङ्गः मीड्वङ्ग इति वीड्वङ्ग इति वीड् गर्दभा आसाधयति साधयति सम् सन्नश्यति एवैनम् एनमेतया एतया स्थेम्ने स्थेम्ने गर्दभेन सम्भरति भरतितस्माद् तस्माद्गर्दभः गर्दभः पशूनाम् पशूनाम् भारभारितमः भारभारितम इति भारभारीतमः गर्दभेन सम् सम्भरति भरतितस्मात् तस्माद्गर्दभः गर्दभोऽपि अप्यनादेशे अनादेशे अनादेश इत्यनादेशे अत्यन्यान् अन्यान् पशून् मे व्यत्यन्नम् अन्नगम् हि येन येनेनार्कम् अर्ककम् सम्भरन्ति सम्भरन्ति सम्भरन्तीति सम्भरन्ति गर्दभे न सम् सं, सम्भरति तस्मात् गर्द तस्माद्गर्दभः गर्दभो गर्द गर्द द्विरेताः द्विरेताः सन् द्विरेता इति द्विरेताः सम् कनिष्ठम् शोना, प्रजायते जायते अग्निः अग्निर्हि ह्यस्य अस्य योनिम् योनिम् निर्दहति निर्दहति प्रजासु निर्दहति प्रजासु मयि प्रजास्विति प्राजासु वा एष एष एतर्हि एतर्ह्यारूढः ईश्वरः प्रजाः प्रजाश्रुता प्रजा इति प्राजाः श्रुता प्रदहः शिवः भव प्रजाभ्यः प्रजाभ्यैति प्रजाभ्यैरि प्राजाभ्यः इत्याह प्रजाभ्यः प्रजाभ्य एव एवैनम् एनकम् शमयति शमयति मानुषेभ्यः मानुषेभ्यस्त्वम् त्वमङ्गिरः अङ्गिरयति इद्याह आह मानव्यः मानव्यो हि ये प्रजाः प्रजामा प्रजा इति प्राजाः मा द्यावापृथिवी द्यावापृथिवी अभि द्यावापृथिवी इति द्यावापृथिवी अभिशोषुचः शोषुचो मान्तरिक्षम् अन्तरिक्षम् मा वनस्पदीन् अनस्पदीनिति इत्याह आहैभ्यः एभ्य एवैनम् एनम् लोकेभ्यः लोकेभ्यः शमयति शमयति प्र प्रैतु एत वाजी वाजी कनिक्रदत् कनिक्रदति इत्याह आहवाजी वाजीः ह्येषः एष नानदत् नानद्रासभः रासभः पत्वाति इत्याह आहरासभः इति एतमऋषयः ऋषयोवदन् अवदन्भरन् भरन्नग्निम् अग्निम् पुरेष्यमिति इत्याह आहाग्निगुम् आद्यायुषः पुरा पुरेति इत्याह आहायुः आयुरेव एवास्मिन् अस्मिन् दधाति दधाति तस्मात् तस्माद्गर्दभः गर्दभः सर्वम् सर्वमायुः आयुरेति एति तस्मात् तस्मात् घे दघे पुरा पुरायुषः आयुषः प्रणीते प्रणीते बिभ्यति प्रणीत इति प्रणीते अग्निम् वृषणम् वृषणम् भरन् भरन्नित्याह आहवृषाः वृषा हि ह्येषः एष वृषाः वृषाग्निः अग्निरपाम् अपाम् गर्भम् गर्भगम् समुद्रियम् समुद्रियमिति हि ह्येषः एष गर्भः यदग्निः अग्निरग्ने अर्गः आयाहि याहि वीतयेः वीतय इति वै वा इमौ इमौ लोकौ लोकौ विद्यैताम् एतामग् अर्गः आजाहि याहि वीतयेः वीतयति इति यत् यदाह आहानयोः अनयोर्लोकयोः लोकयोर्वीत्यै प्रच्युतः ीत्या प्रच्युतो वै प्रच्युतैः प्राच्युतः वा एषः एष आयतनाद् आयतनाजगतः आयतनादित्या प्रतिष्ठामिति प्रतीस्था स एतर एतर्हि एतस्य ध्वर्युम् अध्वर्यम् च यजमानम् यजमानम् चध्यायति ध्यायत्रम् कृतकम् सत्यम् सत्यमिति इत्याहेयम् इयम् वै वा ऋतम् ऋतमसौ असौ सत्यम् सत्यमनयोः अनयोरेव अनयो एतैनम् एनम् प्रति प्रतिष्ठापयति स्थापयति न नार्तिम् आर्तिमा आर्च्छति पृच्छत्यध्वर्युः अध्वर्युर्न न यजमानः यजमानो वरुणः वरुणो वै यजमानमभि अभ्या ऐति एति यदग्निः अग्निरुपनद्धः उपनद्ध ओषधयः उपनद्ध उपन इत्युपानद्धः ओषधयः प्रति प्रतिगृह्णीता इत्याह आहशान्त्यै शान्त्यै व्यस्यन् यस्यन्विश्वाह यस्यन्निदि अस्यन् विश्वा अमतीः राजे इत्याह आह रक्षसा रक्षसामपहत्यै अपहत्यै निषीदन् अपहत्या इत्यपाहत्यै निषीदन्नः निषीदन्विति निषीदन् नो अप अपदुर्मदिम् दुर्मदिम् हनद् दुर्ममिति दुहमतिम् अनदिरि इत्याह आह प्रतिष्ठित्यै प्रतिष्ठित्या ओषधयः प्रतिष्ठित्या इति प्रतिष्ठित्यै ओषधयः प्रति प्रतिमोदध्वम् मोदध्वेनम् एनमिति इत्याह आहौषधयः ओषधयो वै वा अग्नेर्भागधेयम् भागधेयम् ताभिः भागधेयमिति भागाधेयम् ताभिरेव एवैनम् एनम् समर्थयति अर्थयति पुष्पावतीः पुष्पावतीः सुपिप्पलाः पुष्पावतीरिति पुष्पावतीः सुपिप्पला इति सुपिप्पला इति सोऽपिपलाः इत्याह आहतस्मात् तस्मादौषधयः ओषधयः फलम् फलम् गृह्णन्ति गृह्णन्त्ययम् गोगर्भः गर्भऋत्वियः ऋतयः प्रत्नम् प्रत्नम् सधस्तम् अधस्थमा अधस्थमिति सधास्थम् आसदत् असददि इत्याह आहयाभ्यः याभ्य एवैनम् एनम् प्रक्षावयति प्रक्षावयति तासौ प्रक्षावयतीति प्राक्षापयति तास्वेव एवैनम् एनम् प्रति प्रतिष्ठापयति स्थापयति द्वाभ्याम् उपावहरति उपावहरति प्रदिष्यत्यै उभावहरति इत्युभावहरति प्रदिश्यत्या इति प्रदेशित्यै वा ऋणो वै वा अग्निः अग्निर्पलब्धः उपलब्धो वि उपलब्ध इत्युपलब्धः विपाजसा पाचसेति इति विस्रगंसयति स्रगंसयति सृतृप्रसूदः सवितृप्रसूद एव समितृप्रसूद इति सवितृप्रसूदः एवास्य अस्य विषूचीम् विषूचीम् वरुणमेनिम् वरुणमेनिम् वि वरुणमेनिमिति वर्णमेनिम् विसृजति सृजत्यपः अप उप शान्ताः शान्ताः शान्दाभिः एवास्य अस्य शुकम् शुचकम् शमयति शमयति तिसृभिः ऋष्रभिर्वा त्रसृभिः उपसृजति त्रिजति त्रिवृत् त्रिवृद्वै त्रिवृद्ध त्रिवृत् वा अग्निः अग्निर्यावान् यावानेव एवाग्निः अग्निस्तस्य तस्य शुकम् शुजकम् शमयति शमयति मित्रः पित्रः सकम् सृज्य सघुंसृज्य पृथिवीम् सकम् सृज्येति संसृज्य पृथिवीमिति इत्याह आहमित्रः मित्रो वै वै शिवः शिवो देवानाम् देवानान्देन तेनैव एवैनम् येन कुंसम् सकम् सृजति सृजति शान्ति शान्ति यद् यद्ग्राम्याणाम् ग्राम्याणाम् पात्राणाम् पात्राणाम् कपालैः कपालैः सकम् सृजेत् सकम् सृजेद् सकम् सृजेदिति सं पात्राणि पात्राणि शुटा सुतार्पयेत् अर्पयेत् कर्मकपालैः कर्मकपालैः सम् कर्मकपालैः कर्माकपालैः सकम् अनुपजीवनीयानि तानि अनुपजीवनीयानि तजीवनीयानि तान्येव एव शुचा शुचार्पयति अर्पयति शर्कराभिः शर्कराभिः सम् सर्वम् सृजति सृजति धृत्यैः धृत्या अधोः अथो शन्त्वाय अथोरित्यथोः शन्त्वाया चलोमैः शन्त्वायैतिषान्त्वाय अजलोमैः सम् अजलोमैरित्यजा लोमैः सर्वम् सृजति सृजत्येषा एषा वै देशा, देशा वा प्रिया प्रियातनोः तनोर्य अजा प्रिययाः प्रिययैव एवैनम् एनम् तनुवाः तनुवासं सगं सृजति सृजत्यतोः अथो तेजसा तेजसा कृष्णार्जुनस्य कृष्णार्जुनस्य लोमभिः कृष्णार्जुनस्य यदि कृष्णार्जुनस्य लोमभिः लोमभिरितिलोमाभिः सर्वम् सृजति श्रुजयज्ञः यज्ञो वै वै कृष्णार्जनम् कृष्णार्जिनम् यज्ञेन कृष्णाजिनमिति यज्ञेनैव एव यज्ञम् यज्ञगुंसम् सर्वम् सृजति श्रुज्राः रुद्रात्संहृत्य संहृत्य पृथिवीम् संहृत्य इति संहृत्य पृथिवीमिति यज्ञाः एतावै वा एतम् एतम् देवता अग्रे अग्रे सम् समभरन् अभरन्ताभिः एवैनम् एनपुंसम् सम्भरति भरति मघस्य मखस्य शिरः शिरोऽसि असीति इत्याह आहयज्ञः यज्ञो वै वै मघः मखस्तस्य तस्यैतत् तस एतच्छिरः यदुखा उखा तस्मात् एवमाह आहयज्ञस्य यज्ञस्य पदे पदे स्थः इति पदे स्थ इति आहयज्ञस्य यज्ञस्य हि ये रे एते एते इत्येते पदे अथोः पदे इति पदे अथो प्रतिष्ठित्यै अथो इत्यथोः प्रतिष्ठित्यै प्रतिष्ठित्य इति प्रतिष्ठित्यै प्राण्याभिः अन्याभिर्यच्छति यच्छत्यनु अन्मन्यैः अन्यैर्मन्द्रयते मन्द्रयते मिशनत्वाय इथनत्वाय त्रयुद्ध्यम् इथनत्वाय करोति त्र्युद्धिमिति त्रिबुद्धिम् करोति त्रयः त्रय इमे लोकाः ैः आप्ति छन्दोभिः छन्दोभिः करोति छन्दोभिरि छन्दःभिः करोति वीर्यम् वीर्यं वै वै छन्दागुंसि छन्दागुंसि वीर्येण वीर्येणैव एवे एनाङ्करोति करोति ईदुषा ईदुषा बिलम् करोति करोति व्यावृत्त्यै व्यावृत्त्या इति आवृत्ति यतीम् करोति करोति प्रजापजना प्रजापजना यज्ञमुखेन प्रजापजनेति प्रजापजना यज्ञमुखेन संमिताम् यज्ञमुखेन यज्ञमुखेन संमिताम् द्विस्तनाम् संमितामिति साम्मिताम् करोति द्विस्तनामिति द्विस्तनाम् करोति द्यावापृथिव्योः द्यावापृथिव्योर्दोहाय द्यावापृथिव्योरिद्यावापृथिव्योः दोहाय चतुस्तनाम् चतुस्तनाम् करोति चतुस्तनामिति चुदुःस्तनाम् करोति पशूनाम् पशूनान्दोहाय दोहायाष्टास्तनाम् अष्टास्तनाम् करोति अष्टास्तनामित्यष्टास्तनाम् करोति छन्दसा छन्दसान्दोहाय दोहाय नवाश्रिम् नवाश्रिमभिजरदः नवाश्रिमिति नवाश्रिम् अभिजरदः कुर्यात् अभिजरत इत्यभिजरदः कुर्यात् त्रिवृतम् त्रिभृतमेव त्रिवृतमिति त्रिवृतम् एववज्रम् वज्रम् संहृत्य संहृत्य भ्रातृव्याय संहृत्यैत संहृत्य भ्रातृव्याय प्रहरति हरतिस्तृत्यै स्तृत्यै कृत्वाय कृत्वाय सा सा महीम् महीमुखा मुखामिति इति देवतासु देवतास्वेव एवैनाम् प्रति प्रतिष्ठापयति स्थापयतीति स्थापयति सप्तभिर्धोपयति सप्तभिरिति सप्ताभिः सप्ता सप्त वै वैशीर्षण्याः शीर्षण्याः प्राणाः प्राणाश्रः प्राणा इति प्राणाः श्र एतत् एतद्यज्ञस्य यज्ञस्य यत् यदुखा उखा शीर्षन् शीर्षन्नेव एव यज्ञस्य यज्ञस्य प्राणान् प्राणान् दधाति प्राणानिति प्राणान् दधाति तस्मात् तस्मात् सप्त सप्तशीर्षन् शीर्षन् प्राणाः प्राणाश्वसकेन प्राणा इति प्राणाः अश्वसकेन धूपयति अश्वशकेनेन्द्रिश्वासकेन धूपयति प्राजावत्यः प्राजापत्यो अश्वस्य नित्वाय तयो सयोनीत्वा एति सयोनीत्वाय अदितिस्वा त्वेति इत्याह आहेयम् इयम् वै वा अदिभिः अदितिरदित्या अदित्यैव एवादित्याम् अदित्याम् घनति खनत्यस्याः अस्या अक्रोरङ्गाराय अक्रोरङ्गारायण अक्रोरङ्गारायेत्यक्रोरङ्गाराय हि स्वः स्वस्वाम् स्वम् हिनस्ति हिनस्ति देवानाम् देवानाम् त्वा पत्नीः पत्नीरिति इत्याह आह देवानाम् देवानाम् वै त्वा एताम् एताम् पत्नयः पत्नयो अग्रे अग्रे कुर्वन् अकुर्वन्ताभिः ताभिरेव एवेनाम् एनाम् रधाति रधाति धिषणा आहणास्त्वा त्वेति इत्याह आहविद्याः विद्या वै वै तिषणा आषणा विद्याभिः विद्याभिरेव एवेनाम् एनामभि अभि इत्याह आहछन्दांसि छन्दागंसि वै वै ग्नाः नाश्चन्दोभिः छन्दोभिरेव एवैनाम् एनाविश्रपयति श्रपयति वरोत्रयः वरोत्रयस्वा त्वेति इत्याह आहोत्रा आह होत्रा वै वै वरोत्रयः वरोत्रयो होत्राभिः होत्राभिरेव एवैनाम् इत्याह आहदेवानाम् देवानाम् वै पत्नीः पत्नीर्जनयः जनयस्ताभिः ताभिरेव देवैनाम् एनाम् पचति पचति षड्भिः षड्भिः पचति षड्भिरिति षड्भिः पचति षट् षड्व वा ऋतवः एनाम् रचति पचतिद्भिः द्विः पचन्तु इत्याह आह तस्मात् तस्माद्भिः विः संवत्सरस्य संवत्सरस्य सस्यम् संवत्सरस्येति पच्यते पच्यते वारुणी वारुण्युखा उघाभीद्धाः अभीद्धा मैत्र्यः देवस्त्वा सविता सवितो उद्वपद् उपत्तिरि इत्याह आह सविदर्प्रसूदः सविदर्प्रसूद एव सवितृप्रसोद इति सवितृप्रसोदः एवैनाम् एनाम् ब्रह्मणा ब्रह्मणा देवताभिः देवताभिरत् अपद्यमाना पृथिवी पृथिव्याशा आशादिशः त्रिश आणे इत्याह आहतस्मात् तस्मादग्निः अग्निः सर्वाः सर्वादिशः त्रिशो अनुवि विभाति भात्युत् उत्तिष्ठ तिष्ठबृहति लघती भव भवोर्ध्वा ओर्ध्वा तिष्ठ तिष्ठध्रुवा ध्रुवा त्वम् त्वमिति इत्याह आह प्रतिष्ठत्यै प्रतिष्ठत्या असुर्यम् प्रतिष्ठत्या इति प्रतिष्ठित्यै असुर्यम् पात्रम् पात्रमना आच्छन्नम् अनाच्छण्णमा अनाच्छन्नमित्यना आच्छन्नम् आच्छणति क्षणत्ति देवत्रा देवत्रागः देवत्र इति देवात्रा अकरजक्षीरेण अजक्षीरेण अजक्षीरेणेत्यक्षीरेण आच्छ्रणत्ति शृणति परमम् परमम् वै वा एतत् एतद्वयः प्रयोजत् यदक्षीरम् अजक्षीरम् परमेण अजक्षीरमित्यक्षीरम् परमेणैव एवे एनाम् वयसा अयसा आच्छ्रणत्ति शृणत्येलुषा इदुषा व्यावृत्त्यै व्यावृत्ति छन्दोभिः व्यावृत्या इदिवै आवृत्त्यै छन्दोभिरा छन्दोभिरितिछन्दहाभिः आक्षृणत्य शृणति छन्दोभिः छन्दोभिर्वै छन्दोभिरितिछन्दहाभिः वा एषा एषा क्रियते क्रियते छन्दोभिः छन्दोभिरेव छन्दोभिरिति छन्दःभिः एव छन्दागंसि छन्दाकस्या आच्छृणत्ति शृणतीति शृणति एकविंशत्या माषैः एकविंशत्येत्येका विवंशत्याः माषैः पुरुषशीर्षम् पुरुषशीर्षमक्ष पुरुषशीर्षमिति पुरुषाशीर्षम् अर्चैति एत्यमेध्याः अमेध्या वै वै माषा आह माषा अमेध्यम् अमेध्यम् पुरुषशीर्षम् पुरुषशीर्षममेध्यैः पुरुषशीर्ष इति पुरुषशीर्षम् अमेध्यैरेव एवास्य अस्यामेध्यम् अमेध्यम् निरपदाय निरपदायमेध्यम् निरपदायतिनिः अवदाय मेध्यम् कृत्वा कृत्वाहरति आहरति हरत्येकविपुंशतिः एकविपुंशतिर्भवन्ति एकविंशतिरित्येका विपुंशतिः भवन्त्येकविपुंशः एकविपुंशो वै एकविपुंश इत्येका विपुंसः वै पुरुषः पुरुषः पुरुषस्य पुरुषस्याप्त्यै आप्त्यै व्यर्थम् वै व्यर्थमिति वा एतत् एतत् प्राणैः प्राणैरमेध्यम् प्राणैर्ति प्राणैः अमेध्यञ यत् यत्पुरुषशीर्षम् पुरुषशीर्षम् सप्तधा पुरुषशीर्षमिति पुरुषः शीर्षम् सप्तधा वितृण्णाम् सप्तधेति सप्ताधा वितृण्णाम् वल्मेवपाम् वितृण्णामिति वितृणाम् वल्मैकपपाम् वल्मेवपामिति वल्मैका वपाम् प्रतिनि यदिधाति सप्त वै वै शीर्षण्याः प्राणाः प्राणाः प्राणैः प्राणा प्राणैरेव प्राणैर्तिप्राणैः एवैनत् नत, एनत्सम् समर्थयति अर्थयति मेध्यत्वाय मेऽध्यत्वाययाबन्धः मेऽध्यत्वायति मेध्यात्वाय या यावं वन्धो वै मृत्युबन्धवः मृत्युबन्धवस्तेषाम् मृत्युबन्धव इति मृत्यो बन्धवः तेषाम् यमः यमाधिपत्यम् आधिपत्यम् परि आधिपत्यमित्याधिपत्यम् परियाय इया यमगाथाभिः यमगाथाभिः परि यमगाथाभिरिति यमागाथाभिः परिगायति गायति यमाद् यमादेव एवैनत् एनद्वृन्ते त्रिसर्वभिः तेस्रभ्यः परि तेस्रभ्यति त्रिसद्भिः परिगायति गायति त्रयः इमे इमे लोकाः लोकादेभ्यः एभ्य एवैरत् एनल्लोकेभ्यः लोकेभ्यो वृन्दे वृन्दे तस्मात् तस्माद्गायते गायतेन न देयम् देयम् गाथा गाथाहितत् तद्वृन्दे वृन्दे यज्ञिभ्यः अग्निभ्यः पशून् अग्निभ्यै यज्ञेभ्यः पशूना आलभते लभते कामाः कामा वा अग्नयः अग्नयः कामान् कामानेव हे वाव अवरुन्धे रुन्धेद् यद्वशून् पशोन्न नालभेद आलभेदानवरुद्धाः आलभेदेज्ञा अनवरुद्धास्य अनवरुद्धा अस्य पशवः पशव स्योः शर्यर् यत्पर्यज्ञकृतान् पर्यज्ञकृतानुत्सृजेत् पर्यज्ञकृतानिति पर्यज्ञीकृतान् उत्सृजेत्यज्ञवेषसम् उत्सृेदित्युत्सृजेद् यज्ञवेषसम् कुर्यात् यज्ञवेषसमिति यज्ञावशसम् प्रविजार्गस्थापयेत् सर्गस्थापयेज्ज्ञातयामानि सद्य स्थापयेदिति साम् स्थापयेत् यातयामानि शीर्षाणि यातयामाने इति यातायामानि शीर्षाणि शर्यत यत्पशोन् पशोनालभते आलभतेन आलभत इत्यालभते तेनैव एव पशोन् पशोनव अवरुन्धे रुन्धे यत् यत्पर्यज्ञकृतान् पर्यज्ञकृतानुत्सृति पर्यज्ञकृतानिति पर्यज्ञे कृतान् उत्सृति शीर्षणाम् उत्सृति इत्युदृति शीर्षणामयादयामुत्वाय अयादयामत्वाय प्राजापत्येन अयादयामत्वाय प्राजापत्येन सम् प्राजापत्येन प्राजापत्येन सद्गस्थापयति सावेलज्ञः यज्ञो वै वै प्रजापधिः प्रजापजले प्रजापजलिर्प्रजापधिः यज्ञ एव यज्ञम् यज्ञम् प्रति प्रतिष्ठापयति स्थापयति प्रजापधिः प्रजापतिः प्रजाः प्रजापजलिर्प्रजापधिः प्रजा असृजत प्रजायरिप्रजाः असृजतसः स रिचानः रिचानोऽ मन्यत अमन्यतसः एताः आप्रीः आप्रीरपश्यत् आप्रीरित्या आप्रीः अपश्यक्ताभिः ताभिर्वै वै सः समुखतः आत्मानम् आत्मानमा आप्रीणेत अप्रीणीतयत् यदेताः एता आप्रियः आप्रियो भवन्ति आप्रिय इत्या आप्रियः भवन्ति यज्ञः यज्ञो वै वै प्रजापतिः प्रजापतिर्यज्ञम् प्रजापतिप्रजापतिः यज्ञमेव एवैताभिः एताभिर्मुखतः मुखतः आप्रीणादि प्रीणात्यपरिमितछन्दसः अपरिमितछन्दसो भवन्ति अपरिमितछन्दस इत्यपरिमितः छन्दसः भवन्त्यपरिमितः अपरिमितः प्रजापतेः अपरिमित इत्यपरिमितः प्रजापतिः प्रजापतेः प्रजापदलित प्रजापतिः प्रजापतेः प्रजापतेत् प्रजापतेः आत्या ऊनातिरिक्ताः ऊनातिरिक्तापि जनाः ऊनातिरिक्ता वितराः प्रजाद्यै प्रजाद्यैन वशम् प्रजात्यादि प्राजा वै वै नाम नामैतत् एतच्छन्दः छन्दः प्रजापतेः प्रजापतेः पशवः प्रजापते प्रजापतेः प्रजापते प्रजापते पशवो लोमशाः रोमशाः लो पशून् पशूनेव हे वा अवरुन्धे वृन्धे सर्वाणि सर्वाणि वै वा एताः एता, एता रूपाणि सर्वाणि सर्वाणि रूपाणि रूपाण्यग्नौ रु अग्नौ चित्ये चित्ये क्रियन्ते क्रियन्ते तस्मात् तस्मादेताः एता अग्नेः अग्नेः शित्यस्य शित्यस्य भवन्ति भवन्त्येक विविंशतिम् एकविपुंसति पुंसामिधेनीः एकविपुंशतिमित्येका विपुंसतिम् सामिधेनीरु सामिधेनीरिति सां निधेनीः अन्वाह आहरुग् वा एकविपुंसः एकविपुंसो रुचम् एकविपुंस इत्येका विपुंसः ऋचमेव अथो इत्यथोः प्रतिष्ठामेव प्रतिष्ठामिति प्रतिष्ठाम् एव प्रतिष्ठेति प्रतिष्ठा ह्येकविकविंशश्चतुर्विंशतिम् एकविगुंश इत्येकः विपुंशः चतुर्विंशतिमलो आह चतुर्विंशतिः चतुर्विंशतिर्धमासाः चतुर्विंशतिरिति चतुः अर्धमासाः अर्धमासाः इत्यर्धमासाः संवत्सरः संवत्सरः संवत्सर इति Rishlanar's takçade, takçade hemen, takçade de takçade. एव वैश्वादरम् वैश्वादरम् वा अपरुन्धे वृन्धे पराचीः पराचीर्नो अन्वाह आहपरागे परायिव इव हि इसुवर्गः सुवर्गो लोकः सुवर्गे सुवहागः लोकः समानाः समास्वाग्ने अग्निरुवः ऋतवो वर्धयन् वर्धयन्ति एवाग्निम् अग्निम् वर्धयति वर्धयत्रः म् विश्वाः संवत्सरमिति संवत्सरम् विश्वा आभाहि भाविप्रतिशः प्रदिशः पृथिव्याः इत्याह आहस्मात् अस्मादग्निः सर्वाह सर्वादृशः विशो नो अनुविभाति भाविप्रति प्रत्यौहराम् अहरामश्विनाः अश्विना मृत्युम् मृत्युमस्मात् अस्मादिति इत्याह आहमृत्युम् मृत्युमेव एवास्मात् अस्मादप अपनृदति यम् तमस तमसः तमसस्वरि वरीरिह आहमा पाप्मा वै वै तमः तमः पाप्मानम् पाप्मानमेव एवास्मात् अस्मादप अपहन्ति अन् अगन्मद्योतिः ज्योतिरुत्तमम् इति उत्तममिति वै वा आदित्यः आदित्योद्योतिः ज्योतिरुत्यस्य उत्तममिति द्रोतमम् आदित्यस्यैव एव सायुज्यम् सायुज्यम् गच्छति गच्छति न संवत्सरः संवत्सरस्तिष्ठति संवत्सर इति संवत्सरः तिष्ठति न अस्य श्रीः श्री तिष्ठति यस्यीताः एताः क्रियन्दे क्रियन्दे ज्योतिष्वरीम् ज्योतिष्वरीम् उत्तमान् उत्तमान् उत्तमान् आह ज्योतिः ज्योतिरेव वा, एवास्मै तस्मा उपरिष्टाद् उपरिष्टाद् दधाति दधार्गस्य स्वर्गस्य लोकस्य स्वर्गस्य लोकस्यानुख्यात्या इत्यनोख्याति षड्भिर्दीक्ष्यति षड्भिरः ऋतुभिरेव ऋतुभिरियम् एनम् सप्तभिः सप्त सप्तछन्दाः छन्दोभिरेव छन्दोभिर्तिछन्दःभिः एवयम् एनम् विश्वे विश्वे देवस्य देवस्य नेतुः नेतुरिष्टुभाति उत्तमयेत्य वाग्भ्वयि वा अनुष्टब् अनुष्टब्दस्माद् अनुष्टमित्य नोस्तु तस्मात् प्राणानाम् प्राणानाम् वाग् प्राणानामिति प्राणानाम् वागुत्तमा उत्तमेकस्माद् उत्तमेत्य एकस्मात् अक्षरात् अक्षर <laughs> आदनार्क्तम् अनाप्तम् प्रथमम् प्रथमम् पदम् पदम् तस्मात् तस्माद्यद् यद्वाचः वाचो नाप्तम् अनाप्तम् तत् तन्मनुष्याः मनुष्या उप उपजीवन्नि जीवन्नि पूर्णया पूर्णया जुहोति जुहोति पूर्णः पूर्णैव इव हि हि प्रजापतिः प्रजापति प्रजापतेः प्रजापतिरित्प्रजाः प्रजापतेराः न्यूनया जुहोति न्यूनयेतिहोतिन्यूनात् Nyo tha thi nyo na ridini mo na de प्रजापतिः प्रजापतिः प्रजाः प्रजापतिरित्प्रजापतिः प्रजा असजत प्रजा इति प्राजाः असजत प्रजानाम् प्रजानाकम् सृष्ट्यैः प्रजानामित् प्राजानाम् सृष्ट्यै यत् यदर्चिषि अर्चिषि प्रवृञ्जात् प्रवृञ्जाद्भूतम् प्रवृञ्जादि प्रवृञ्जात् भौतमव अवरुन्धीत रृन्धीत यत् यदङ्गारेषु अङ्गारेषु भविष्यत् भविष्यदङ्गारेषु अङ्गारेषु प्रवृणक्ति वृणक्ति एवादा अवरुन्धे वृन्धे भविष्यत् भविष्यति हि भूयः भूयो भूतात् भूताद्वाभ्याम् द्वाभ्याम्र प्रवृणक्ति वृणक्तिद्विपाद् विपाद्यजमानः विपादि द्विपादयजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै ब्रह्मणा प्रतिष्ठित्या प्रतिष्ठित्यै वा एषा एषा यजुषा यजुषा संभृता संहृता यत यदुखा उधा साय यद्भिद्येत भिद्येता आर्तिमा आर्चेत् पृच्छेद्यजमानः यजमानो हन्येत हन्येतास्य अस्य यज्ञः यज्ञो मित्र मित्रैताम् एतामुखा मुखान्तव तपेति इत्याह आह ब्रह्म ब्रह्म वै मित्रः मित्रो ब्रह्मन् ब्रह्मन्नेव एैनाम् एनाम् प्रति प्रतिष्ठापयति स्थापयति न आर्तिमा आर्चति पृच्छति यजमानः यजमानो नास्य अस्य यज्ञः यज्ञो हन्यते अन्यते यदि यदिरैः तैरेव एव कपालैः कपालैः सम् संसृजेत् सृजेत्सा सैव प्रायश्चित्तिः प्रायश्चित्तिर्यः यो गतश्रीः गतश्रीः स्याद् गतश्रीरिति गताश्रीः स्यान्मथित्वा वृथित्वा तस्य तस्या एषः एष सः स स्वाम् स्वान् उपैति एति यो भूतिकामः भूतिकामः स्यात् भूतिकामैति भूतिकामः स्याद्यः य उघायैः उघायै सम्भवेत् सम्भवेत् सः सम्भवेदिति स्यादतः अथो हि ह्येषः एष सम्भवति सम्भवत्येषः सम्भवतीति सम्भवति स्वयम्भोर्नाम स्वयम्भोरि स्वयम्भो भवत्येवतृव्यमस्मैस्तस्य तस्याहृत्य आहृत्य वा आहृत्य आहृत्य अवदध्यात् द्यात् साक्षात् साक्षादेव साक्षादिति साक्षात् एवास्मै अस्मै भ्रातृव्यम् भ्रातृव्यम् जनयति जनयत्यम्बरीषा ईशारमनानामस्य अन्नकावस्यावा अन्नकामस्येत्यन्नाकामस्य अवदध्यात् दध्यादम्बरीषे अम्बरीषे वै वा अन्नम् अन्नम् ब्रियते ब्रियते स योनि स योन्येव अन्नमव अवरुन्धे वृन्धे मुञ्जान् मुञ्जानव अवदधाति दधात्यूर्ग् ऊर्ग्वै वै मुञ्जाः मुञ्जा ऊर्जमेव एवास्मै अस्माभि अपि दधाति दधात्यग्निः अग्निर्देवेभ्यः देवेभ्यो लिलायत लिलायतसः सकृमुकम् कृमुकम् प्राविशत् अविषत्कृ क्रुम्कं, अपार्यदेव द्धादि, एवास्य अस्य तत्र तत्र न्यक्तम् न्यक्तम् तत् न्यक्तमिति तदेव अवरुन्धे वृन्धाद्य आद्येन सम् संयौति यौत्येतत् केदद, एतद्वै वा अग्नेः प्रियं प्रियम् धाम धाम यत् यदाज्यम् आद्यम् प्रियेण प्रियेणैव एकैनम् धासम् समर्धयति अर्थयत्यथो अथो रेजसा अथो इत्यथोः एजसा वैगङ्गदीम् वैगङ्गदीमा आदधाति दधाति भा एव एवाव अवरुन्धे रुन्धे शमीमयीम् शमीमयी मा शमीमयीमिति आदधाति दधाति शान्ती शान्तीसीद सीद त्वम् त्वम् मातुः मातुरस्याः अस्या उपस्थेः उपस्थ इति उपस्थयुवास्थे ऋषुभिः त्रिषुभिर्जातम् ऋषुभिरिषुभिः जातमुप उपतिष्ठते तिष्ठते त्रयः त्रये इमे इमे लोकाः लोका येषु एव लोकेषु लोकेष्वाविधम् आविदम् गच्छति आविदमित्याविदम् गच्छत्यथो अथोः प्राणान् नथो इत्यथोः प्राणानेव प्राणानिति प्राणान् एवात्मन् नात्मन् धत्ते धत्त इति धत्ते यि पुरा पुराग्निः अग्निरपरुषवृक्षणम् अपरुषवृक्षणम् दहति अपरुषवृक्षणमित्यपरुषो वृक्षणम् दहति तत् तदस्मै अस्मै प्रयोगः प्रयोग एव प्रयोगैः प्रयोगः एव ऋषिः ऋषिरस्वदयत् अश्वदयद्वत् यदग्ने अग्नेयानि यानि कानि च चेति इति समिधम् समिधमा समिधमिति संविधम् आदधाति अथात्यपर्षवृक्षणम् अपरुषवृक्षणमेव एवास्मै अस्मै स्वदयति स्वदयति सर्वम् सर्वमस्मै अस्मै स्वदते स्वदतेजः वेद वेदौदुम्बरीम् औदुम्बरी मा आदधाति धात्यूर्ग ऊर्ग्वै वा एवास्मैः अस्मापि अभिदधाति दधाति प्रजापतिः प्रजापतिरग्निम् प्रजापतिरिति प्रजापतिः अग्निमसृजत असृजतम् तकम् सृष्टम् सृष्टकम् रक्षागुंसि रक्षाकस्य जिघाकम् सन् अजिघाकम् सान्सः स एतत् एतद्राक्षोघ्नम् राक्षोघ्नमपर्ष्यत् राक्षोघ्नमिति राक्षाघ्नम् अपश्यत्तेन तेन वै वै सः स रक्षाकुंसि रक्षाकस्य पा अपाहत अहत Так что нам надо राक्षोघमिति राक्षः भवत्यग्नेः अग्नेरेव एव तेन तेन जातान् जातान् रक्षाकुंसि रक्षाकस्य वा अपहन्ति हन्त्याश्वत्थीम् आश्वत्थीमा आदधाति दधात्यश्वत्थः अश्वत्थो वै वैवनस्पतीनाम् वनस्पतीनागम् सपत्नसाहः सपद्मसाहो इति सपत्नासाहः विजित्यै वैगङ्गदीम् विजित्या इति वीजित्यैः वैगङ्गतीमा एव एवाव अवरुन्धे वृन्धे श्रीमीम् श्रीमयीमा श्रीमयीमिति शमीमयीम् आदधाति दधाति शान्ति शान्ति सगंसितम् सगंसिदम् मे सगंसितमिति सितम् मे ब्रह्म ब्रह्मोत् उदेषाम् येषाम् बाहू बाहू बाहू इति बाहू अतिरमिति इत्युत्तमे उत्तमे औदुम्बरी उत्तमे इत्युतमे औदुम्बरी वाचयति औदुम्बरी इत्यौदुम्बरी वाचयति ब्रह्मण ब्रह्मणैव एव क्षत्रम् क्षत्री क्षत्रेण क्षत्रेण ब्रह्म ब्रह्म तस्मात् तस्माद्ब्राह्मणः ब्राह्मणो राजन्यवान् राजन्यवानति राजन्यवानिति राजन्यवान् अत्यन्यम् अन्यम् ब्राह्मणम् ब्राह्मणम् तस्माद् तस्माद् राजन्यः आजन्योः ब्राह्मणवान् ब्राह्मणवानति ब्राह्मणवानति ब्राह्मणावान् अत्यन्यम् अन्यगम् राजन्यम् आजन्यम् मृत्युः मृत्युर्वै वा एषः एष यत् यदग्निः अग्निरमृतम् अमृतम् हिरण्यम् हिरण्यकम् ऋप्पम् ऋप्पमन्तरम् अन्तरम् प्रति प्रतिमुञ्चते मुञ्चते अमृतम् अमृतमेव एव मृत्योः मृत्योरन्तः अन्तर्धत्ते धत्त एकविवंशतिनिर्बाधः एकविंशतिनिर्बाधो भवति एकविंशतिनिर्बाध इत्येकविंशतिनिर्बाधः भवत्येकविपुंशतिः एकविंशतिर्वै एकविवंशतिरित्येका विपुंशतिः वै देवलोकाः देवलोका इति देवालोकाः द्वादशमासाः देवा मासाः पञ्च पञ्चर्तवः रथवस्त्रयः त्रय इमे इमे लोकाः असौ असावादित्यः आदित्य एकविगुंशः एकविगुंश एतावन्तः एकविगुंश इत्येका देवलोकास्तेभ्यः देवलोका इति देवालोकाः तेभ्य एव एव भ्रातृव्यमन्तः अन्तरेति एतनिर्बाधैः निर्बाधैर्वै निर्बाधैरितिनिः reva asuran असुरान् निर्बाधे निर्बाधे कुर्वत निर्बाध इति हि बाधे कुर्वत तत् अन्निर्बाधानाम् निर्बाधानानिर्बाधत्वम् निर्बाधानामिति हि बाधानाम् निर्बाधत्वम् निर्बाधी निर्बाथ निर्बाधत्वमिति निर्बाधात्वम् निर्बाधी भवति निर्बाधीतिनि हि बाधी भवति भ्रातृव्यान् भ्रातव्यानेव एव निर्बाधे निर्बाधे कुरुते निर्बाध इति निः बाधे कुरुते सावित्र्या सावित्र्या प्रति प्रतिमुञ्चते त्या इति प्राति इत्युत्तरया उत्तरयाहोरात्राभ्याम् उत्तरयेत्यहरात्राभ्याम् एवैनम् एनौ उद्यच्छते यच्छले देवाः देवाग्निम् अग्निम् धारयन् धारयन् द्रविडोदाः इति द्रविणोदा इति द्रुविणः इत्याह आह प्राणाः प्राणा वै प्राणाः वै देवाः देवाद्रविणोदाः द्रविणोदा अहोरात्राभ्याम् द्रविणोदा इति द्रविणः दाः अहोरात्राभ्यामेव दा दा दा अहोरात्राभ्यामित्यह दा एवैनम् एनमुद्यत्य उद्यत्य प्राणैः उद्यत्येत्युद्य प्राणैर्दाधार प्राणैर्तिप्राणैः राधारासीनः आसीनः प्रति प्रतिमुञ्चते उञ्चते तस्मात् तस्मादासीनाः आसीनाः प्रजाः प्रजाः प्रजा इति प्राजाः प्रजायन्ते जायन्ते कृष्णाजिनम् कृष्णार्जिनमुत्तरम् कृष्णाजिनमिति कृष्णाजिनम् हिरण्यम् कृष्णाजिनम् कृष्णाजिनम् तेजसा कृष्णाजिनमिति कृष्णार्जिनम् तेजसा चैव एवम् एनम् ब्रह्मणा ब्रह्मणा च स्वोभयतः उभयतः परि परिगृह्णाति गृह्णाति षडुद्यामम् षडुद्यामगम् षडुद्याममिति षडुद्यामम् शिक्याम् भवति षड्वः ऋतव ऋतुभिः ऋतुभिरेव ऋतुभिरृतुभिः ऋद्यक्षरे यक्षरे यत् द्वादशोद्यामकम् संवत्सरेण द्वादशोद्यामम् द्वादशद्यामम् संवत्सरेणैव संवत्सरेणेति संवत्सरेण एव मौञ्जम् मौञ्जम् भवति भवत्यूर्ग् वैमुञ्जाः मुञ्ज ऊर्जा ऊर्जैव एवैनम् येन पुंसम् सवर्धयति अर्धयति सुवर्णः सुवर्णोऽसिवर्णयति सुवर्णः गरुत्मानि इत्येव अवेक्षे ईक्षे रूपम् रूपमेव एवास्य अस्यैत एतम् महिमानम् महिमानम् व्याजष्टे व्याजष्टे दिवम् व्याजष्ट इति आचष्टे दिवम् गच्छ गच्छ स्वः स्वः पदेति इत्याह आह सुवर्गम् स्वर्गमेव स्वर्गमिति स्वहागमम् एवैनम् एनम् लोकम् लोकम् गमयति गमयगीति गमयति समिद्धो भञ्जन् समिद्धयति संनिद्धः अन्यम् कृतरम् कृतरम् मतीनाम् मतीनाम् कृतम् कृतमग्ने अग्ने मधुमत् मधुमत्मानः मधुमदिति मधुमत् किण्वमान इति पिन्वमानः वाजी वहन् वहन्वाजिनम् वाजिनम् जातवेदः जातवेदो देवानाम् जातवेद इति देवानाहम् वक्षि वक्षिप्रियम् प्रियमा आसधस्थम् रस्थमिति सधास्थम् प्रदे नाञ्जन् अञ्जन्सम् सम्पथ सम अथो देवजानान् देवजानाहम् प्रजानन् देवजानामिति प्रजानन् वाजी प्रजानन्निति प्राजानन् आर्य मनुत्वासप्तेः सप्ते प्रतिशः प्रतिशस्सजन्द्राम् प्रतिश इति प्रातिशः सजन्द्राय स्वधाम् तथामस्मै तथामिति अस्मै यजमानाय यजमानाय धेहि धेहि रुधेहिड्यश्च चासि आन्द्यः वन्द्यश्च समाजिन्ने माजिन्नाशुः आशुश्च मेध्यः मेध्यश्च सप्ते सप्त इति सप्ते अग्निष्वाः त्वा देवैः देवैर्वसुभिः वसुभिः वसु सजोषाः वसुभिर् वसु सजोषाः प्रीदम् सजोषा इति स प्रीतम् वह्निम् बन्धिं वह्निम् वहतु वहतु जातवेदाः जातवेदा इति जातावेदाः स्तीर्णम् बर्हि बर्हिः सुष्टरीम सुष्ठरीमा जुषाणा सुष्ठरीमेति सौस्तरीम विषाणोरु उरु वृदु पृथुः प्रथमानम् प्रथमानम् पृथिव्याम् पृथिव्यामिति पृथिव्याम् अपि सजोषाः सजोषाः स्योनम् सजोषा इति सा जोषाः स्योनम् कृमिते सुमिते दधातु तथात्विति दधातु एतावह सुभगाः सुभगाविश्वरूपाः सुभगा इति सोभगाः विश्वरूपादि विश्वरूपा इति विश्वारूपाः विपक्षाभिः पक्षोभिश्रयमाणाः पक्षाभिरितिपक्षःभिः श्रयमाणा उद् उदातैः आदैरित्यादयैः विश्वासैः तते शुम्भमाना द्वारः द्वारो देवीः सुप्रायणाः सुप्रायणा भवन्तु सुप्रायणा इति सुप्रायणाः भवन्तु इति भवन्तो अन्तरा मित्रावरुणा मित्रावरुणा चरञ्जी मित्रावरुणेति मित्रावृणा चरन्ति चरन्ति इति चरञ्जीनाम् यज्ञानामभि अभिसंविधाने संविधाने इति संविधाने उषासा वाहिरण्ये सुहिरण्ये सुशिल्पे सुहिरण्ये इति सु हिरण्ये सुशिल्पे इति सुशिल्पे ऋतस्य यो न विह विह साधयामि साधयामीति साधयामि प्रथमा वाहम् वाहम् सरथिनः सरथिना सुवर्णाः सरथिनेति सारथिनः सुवर्णादेवौ सुवर्णेति सुवर्णः नैवौ पश्यन्तौ पश्यन्तौ भुवनानि भुवनानि विश्वाः विश्वेति विश्वाः अभिप्रयम् चोदना चोदनावाम् वां विमान विमाना होतारा होतारा ज्योतिः ज्योतिः प्रदिशाः प्रदिशा निषन्धाः प्रतिशेति प्रादिशाः निषन्देति निषन्धाः नो भारती भारते वष्टौ वष्टौ यज्ञम् यद्यं, यज्ञम् सरस्वती सरस्वती सह सह रुद्रैः रुद्रैर्नः न आवीर आवीदित्यावीर इडोपभूता उपभूता वह बहुत देर से बाह होता था वसुभिः सजोषाः वसुभिरिति वसुभिः सजोषा यज्ञम् सजोषा नः नो देवीः देवीरमृतेषु अमृतेषु सर्ता धर्तेरिति सर्ता त्वष्टा वीरम् वीरम् देवकामम् देवकामम् जान देवकाममिति आशुरश्वः अश्वैत्यश्वः त्वष्ठेदम् इदम् विश्वम् विश्वम् भुवनम् भुवनम् जजानजान बहोः कर्तारमिह विहयक्षि यक्षि होतः होतरिति होतः अश्वघृतेन कृतेन्याः समक्तः समक्त उप समक्त इति समर्थः उपदेवान् देवाकुमृदुषः देवा ऋतुषः पाठः ऋतुषेत्य दोषः दो, पादयेतु एत्येतु वनस्पतिर्देवलोकम् एवलोकम् प्रजानन् प्रजानन्नग्निना प्रजानन्निति प्रजानन् अग्निना हव्या हव्यास्वदिदानि वक्षद वक्षदिति वक्षद प्रजापतेः तपसा वा आरुधानः सद्यः सद्यो जातः जातोदधिषे दधिषे यज्ञम् यज्ञमग्ने अज्ञ इत्यग्ने साहा कृतेन हविषाः साहान निःस्साहाकृतेन हविषा इति पुरः याहि साध्या साध्या हविः हविरदन्तु अदन्तु देवाः इति देवाः पञ्चमकाण्डे प्रथमः प्रश्नः